श्रीमद्भागवस्कंध अथ पंचदशोध्या के लिए मोक्षधर्म का वर्णन नारद्वाच कर्मनिष्ठा दुझा केचि तपोनिष्ठा नि पापरे स्वाध्याय प्रवचने ये कैचिज्ञान योगा देयानी कव्यान विख्यता दैवे च तद्भावे स्यादितरेभ्यो महायथार्हतः द्वौ दैवे पितृकार्ये त्रिणैकैकमुभयत्र वां भोजयेषु समृद्धोऽपि साधिकुर्यान्न विस्तरम् देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च सम्यग्भवन्ति देशे काले च सम्प्राप्ते मुन्यन्नं हृदैवतं श्रद्धया विधवत्पात्रे नं कामधुगक्षयं देवर्षि पितृभूतेभ्य आत्मने स्वजनाय च अन्नं सविभजन् पश्ये सर्वं तत्पुरसात्मकं न दध्यादामिशंसाध्ये न चाध्या धर्मतत्त्वभिमुन्यन्नैः स्यात्परा प्रीतिर्यथा न सहिंसया नैताजुस परो धर्मो नृणां सद्धर्ममिच्छतां नासो तन्नस्य भूतेऽ सो मनोवाक्ताय यस्य यः एकैकर्मयान् एक यज्ञान ज्ञनो यज्ञवित्तमाः आत्मशयमले नीहा जुह्वति ज्ञानदीपिते दव्यज्ञैर्यक्षमाणं दृष्ट्वा भूतानि बिभ्यते एष मा करुणो हन्यान् अज्ञोष सुद्बृहं ध्रुवम् तस्मान्तैवोपन्नेन मुञ्जन्येनापि धर्मवे सन्तुष्टो हरः कुर्यान्नित्यनोन्नैमित्तिकीक्रिया विधर्म प्रधर्मस्य आभास उपमाचलः अधर्मशाखाः पञ्चे मां धर्मज्ञो धर्म, धर्म वत्यजेत धर्मबाधो विधर्मः स्यान् परधर्मो नचोदितः उपधर्मस्य पाखण्डो दम्भो यस्त्वेक्षया कृतपुम्भिः आभाशो शास्त्रमहापृथं स्वभावविहितो धर्म कश्चनेष प्रशान्तये धर्मार्थमपि नेहेतयात्रार्थं वादनो वदनम् अनेहा लीहमानस्य महाहेरीव वृत्तिदा सन्तुष्टस्य निरीहस्य स्वात्मा रामस्य सुखं कुतस्तत्कामलोभेन धावतोऽर्थे हादिश तदा सन्तुष्टमनसः सर्वा सुखमयादिशः सर्कराकण्टकादिभ्यो यथोपानद्वपदशिवं सन्तुष्टः केन वा राजन्नवर्तेतापि वारिणा औपस्य जैह कार्पण्याग्निपालाय ते जनः असन्तुष्टस्य विप्रस्य तेजोविद्यातपूजसः श्रवन्तिन्द्रियलौल्येन ज्ञानं चैवावकीर्यते कामस्यान्तं च श्रुतिभ्यां क्रोधस्यैतत्फलोदयात् जनो याति न लोभस्य जित्वा भुक्त्वा विशोभुवः पण्डिता बहवो राजन् बहुज्ञा शंसि यच्छितः सदसत्पतयोऽप्येके सन्तोषात् पतन्त्यथः असङ्कल्पाजयेत् कामं क्रोधं कामविवर्जनात् अर्थानर्थेक्षया लोभं भयं तत्त्वं मर्शनात् आण्विक्षिख्या शोकमोहोदम्भं महदुपाशया योगान्तरायान्मौनेन हिंसां कायाद्यहया कृपया भूतजं दुःखं देवं जह्या समाधिना आत्मदं योगविर्येन निद्रां सत्त्वानुसेवया रजस्तमस्य सत्त्वेन सत्त्वं चोपशमेन च एतत्सर्वं गुरो भक्त्या पुरुषोयं जसाजे यस्य साक्षात् भगवति ज्ञानदीपप्रदे गुरौ मर्त्या से सुस्य सर्वं पुञ्ज रसोचवत् ये स वै भगवान् साक्षात्प्रधानपुरुषेश्वरः योगेश्वरेव मुलयाघ्रयं नरम् सर्वर्गं संयमैकान्ता सर्वालियं चोदनाः तरन्ता यदि नो योगान्नावहेयो समावहा यथा वार्ता दयो शर्था योगस्यार्थं न बिभ्रते अनर्थाय भवेत्युस्ते प्रथमेशं तथा सतः यस्यित्त विजये यत्तस्याणि सङ्गोपरिग्रह एको विभिक्तशरणो भिक्षुर्भिक्षामिताशनः देशे शुशौ समे राजन् संस्थाप्य शिरं समं सुखं तस्मिन्नासे द्वङ्ग ओमिति प्राणापानौ सन्निरुद्ध्यां पुनः कुम्भकरे चकैः यावन्मनस्तजेत्कामान् स्वनासाग्रनिरीक्षणः यतो यतो निःसरति मनकामहतं भ्रमं भ्रमत ततस्तत उपाहृत्य हृतिरुद्ध्यानैर्भुतः एवम् अभ्यथञ्चित्तं काले नाल्पीयसायते अनीशं तस्य निर्वाणं जातनिन्धन वह्त् कामादिभिर्नाविद्धं प्रशान्तलवृत्ति यच्चित्तं ब्रह्मसुखस्पृष्टं दैवो तिष्ठेत्कर्जी य प्रवध्य गृहात्पूर्वं त्रिवर्गावपनात् पुनः यदि ते वेतन्तान् भिक्षु स वैवान्तास्य पत्रपः यै स्वदेहस्मितोनात्मामर्थो विड्ग्रमी भस्मसात् त एनमात्मसा कृत्वा श्लाघयन्ति ह्य सत्तमाः गृहस्तस्य क्रिया त्यागो व्रतत्यागो वटुरपि तपस्विनो ग्रामसेवाभिक्षोरिन्द्रियलोलता आश्रमापसदाह्ये ते खल्वाश्रं विडम्बकाः देवमायाविमूढास्तानुपेक्षेतानुकम्पयः आत्मानं ते द्विजानीयात्मनं ज्ञानदुताशय किमिच्छन् कस्य वा हेतोर्देहं पृष्णाचुलं पटः आहु शरीरं ऋतुमिन्द्रियाडीहयालभीषुण्न इन्द्रियेशं वर्तमानिमात्रा तृष्णां च सूतं सत्वं बृहद्बन्धुरमीशिष्टम् अक्षं दशप्राणम् अधर्मधर्मौ चक्रे विमानं च जीवम् धनुर्हितस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यं राघो द्वेषस्य लो लोभस्य शोकमोहोभयं मदः मानो मानो शूजा च मायाहिंसा चमत्सरः द्जप्रमादं शून्निद्रा सत्रुवस्त्वेव मादयः रजस्तमप्रकृतयः सत्त्वप्रकृतयः स्वचीं यावण्डिकाय रथमात्मवशोपकल्पम् धत्ते करिष्टचरणार्चनया निशातं ज्ञानाशमद्यतबलो दशदस्तशद्रुः स्वाराध्यतुष्टौ शान्ति विजयस्यात् नो चेत् प्रमदमसतिन्द्रियं वाजिसूतां नित्योत्पथं विषयं दस्यूषु निक्षिपन्ति एतस्य वसयं सूतममुं तमोऽन्थे संसारकूपौर्मृत्युभये प्रवित्तं च निवित्तं च द्विविधं कर्मभेदिकम् आवर्तेत प्रवित्तेना निवृत्तेना स्नुतेऽमृतंसं तव्यमयं कां नग्निग्निहोत्राद्यशान्तिदं दशश्च पूर्णमासश्च चातुर्मास्यं पशुसुतः एतदिष्टं प्रवृत्ताख्यं हुतं प्रभृतमेव च पुरुतं सुरालया राम दभ्य सूक्ष्मविपाकश्च धूमो रात्रिरपक्षय एनं दक्षिणं सोमो दर्श ओषधविरुध अन्नं प्रेत इति चेश पितृयानं पुनर्भव एकैकस्येनानु पूर्वं भूत्वा भूत्वेह जायते निषेकादिः श्मथानान्तैः संस्कारय संस्कृतोदिजः इन्द्रियेषु गृहायज्ञान् दानदीपे स जुह्वे इन्द्रियालिबलस्युर्मौ वाचि वैकारिकं मनः वाचं वर्णसमां नायेतम् ओङ्कारैश्वरेणे ओङ्कारं बिन्दौ नादेहितं तं तु प्राणे हत्यमुम् अग्ने सूर्योधिपा प्राट्व शुक्लो राकोत्तरं सुराट् विश्वश्च तैज सह प्राज्ञ स्तुर्यात्मा समन्वयाद् देवयानमिदं प्राहुर्भूत्वा भूत्वा न पूर्वशः आत्मया न निवर्तते जायेते पितृदेवानाम् अय न वेदनिर्मिते शासेन चक्षुषा वेदजनस्थोऽपि न मुह्यते आधावन्ते जनानां सद्भैरन्थपरावरं ज्ञानं ज्ञेयं वचो वाच्यं तमुद्योते स्वयं स्वयम् आबाधितोऽपि शाभासो यथा वस्तूतया दुर्घटत्वादेन्द्रियकं तद्वदर्थविकल्पितं चित्यादीनां हार्थानां छ्याया न गतमापिः न संघातो विकारोऽपि न पृथङ्गान्वितो मृषा धातो वयं विद्वाच्च तन्मात्रावयवैविना न श्यूरिहृतत्यभयं जाग्रहस्वापौ यथा स्वप्ने तथा विधिनिषेधता भावाद्वैतं <laughs> क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः वर्धयन् स्वानुभूत्येह तिन् स्वप्नान्धूनिन्दुते मुनिः कार्यकारणवस्वैक्यम् अर्शनं पठतन्तुवत अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणं मनोवार्तानुभीपार्थक्रियाद्वैतं तदुच्यते आत्मजासुतादीनाम् अन्येषां सर्वदेहिनां यस्वार्थकामयोरैक्यं दव्याद्वैतं तदुच्यते यद्यस्य वा नसिद्धं स्याद्येन यद्रा यतो नृप स एतैरण्यै <Sunmakes> स वर्तमान वर्तमानसुकरमपि गृहेऽप्यस्य गतिं जाजाद्रायस्तद्भक्तिभाण्डरः यथा यूयं नृपदेवा दुश्चजान् आपाद्गणादुत्तरतात्मनः प्रभो यत्पादपङ्केरुः सेवया भवान् आहार्षनिर्जितं दिग्गज क्रतून अहं पुरा भवं नाम्नाति महा ते महाकल्पे गन्धर्वाणां सुतम्मतः रूपपे सलमाधुर्य सौगन्ध्यप्रियदर्शनः तीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः उपहूता विश्वसिग्भिर्हरिर्गाथोपगायदे अहं च गायन् तद्विद्वान् सविपरिमितो ज्ञात्वा विश्वासयस्तम्बे हेलनं श्रे पुरोजा या हि त्वं शुद्धतामाशु नष्ट श्रीकृतहेलनः तावद्दास्यामहम् जज्ञे तत्रापि ब्रह्मवादिनां शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् धर्मश्री गृहमे देयो वर्णितः पापनाशनः गृहस्थो येन योऽयं नृलोके पद्भूरिभागालोकं पुना नामुनियोभियन्ति येषां गिहाना वसति च साक्षाद्गूढं परब्रह्म मनुष्यलिङ्गं स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्माणसुखानुभूतिः प्रियसुहिद्वकलुमातुलीय आत्मारणीयो गुरुश्च न यस्य साक्षाद्भवपद्मजातिभिरूपं धिया वस्तु तयोपवर्णितम् मौनेन भक्त्योपशमेन पूजितः प्रतीदतामेतस सा त्वतां पतिः श्रीसुवाच इति देवर्चिना प्रोक्तं निशम्य भरदर्शवः पूजयामास सुप्रेतः कृष्णं च प्रेमविफलः कृष्णपार्थावुपावन्त्य पूजितः प्रियो मुनिः श्रुत्वा कृष्णं परब्रह्म पार्थः परं विस्मितः इति दाक्षायीनां ते पृथग्वान् वंशाः प्रकीर्तिताः देवासुरमनुष्याद्यालोकायत्र चराचराः इति श्रीमद्भागवते महापुराणे वैयासिख्यामश्रादशत्रायां पारमहंसां सहितायां सप्तमस्कन्धे प्रह्लादानुचरिते यदिष्टिन्नारसंवादे सदाचार्यनिर्णयोनां पञ्चदशोऽध्यायः इति सप्तमस्कन्धः समाप्तः हरि ओं तस्य हरिः ओं तस्यत् हरिहों